द्वात्रिंशोऽध्यायः सौथिरुवाच ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे गरुडः पक्षिराट् तूर्णम् सम्प्राप्तो विबुधान्प्रति तम् बलं चैव प्राकम् पन्तसुरास्ततः परस्परम् च प्रत्यघ्नन् सर्वप्रहरणान्युत तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः भौमनः सुमहावीर्यः सोमस्य परिरक्षिता सतेन तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः मुहूर्तमतुलम् युद्धं कृत्वा विनिहितो युधि रजश्चोद्धूयसु महत्पक्षवातेन खेचरः कृत्वा लोकान् लोकान्निरालोकान्स्तेन देवानवाकिरत् तेनावकीर्णा रजसा देवामोऽहमुपागमन् न चैवम् ददृशुच्छन्ना रजसामृतरक्षिणः एवम् संलोडयामासगरुडस्त्रिदिवालयम् पक्षतुण्डप्रहारैस्तु देवान् सविददारह ततो देवः सहस्राक्षस्तूर्णम् वायुमचोदयत् विक्षिपे माम् रजो वृष्टिम् तवेदम् कर्ममारुत अथ वायुरपो वाह तद्रजस्तरसा बली ततो वितिमिरे जाते देवाः शकुनि मार्दयन् ननादोच्चैः स बलवान् वध्यम सुरगण सर्वूता उत्पात मीय पक्षिरा परीर सपत्क्षस्थं देवा परिस्थितं। वर्मिणो विबुधा सर्वे वाकिरन। नाशस्त्रैरवाकिट्टिषे परघैशूलाच स वासवा क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः कुर्वन् सुतुमुलम् युद्धम् पक्षिरान्नव्यकम्पत युद्धं पक्षिरान चाकाशे वैनतेयः प्रतापवान् पक्षाभ्यामुरसा चैव समन्ताद् ते विक्षिप्तास्ततो देवादुद्रुवुर्गरुडार्तिताः नखतुण्डक्षताश्चैव शुश्रुवुः शोणितम् बहु साध्याः प्राचीन्सगन्धर्वा वसवो दक्षिणाम् दिशम् प्रजग्मुः सहिता रुद्राः मुहुर्मुहु प्रेक्षाणा युध्यमौजस अश्वक्रंदन वीरेण रेणुक रे पक्षिरा क्रथन चूरेण तपनर उलूक शसनाभ्याण पक्षिराज संग्रामपुन च तान पक्षनखतुण्डाग्रैर् अभिनद्विनता सुतः युगान्तकाले सङ्क्रुद्धः पिनाकीव परन्तप महाबलामहोत्साहास्तेन ते बहुधाक्षताः रेजुरभ्रघनप्रख्यारुधिरोघप्रवर्षिणः तान् कृत्वा पदगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत आवृण्वानम् महाज्वालम् महाज्वालं सर्वतोऽम्बरम् दहन्तमिव तीक्ष्णाम् शुञ्चण्डवायुसमीरितम् ततो नवत्या नवतीर्मुखानाम् कृत्वा महात्मा गरुडस्तरस्वी नदीः समापीयमुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन ज्वलन्तमग्निम् तममित्रतापनः समास्तरत्पत्ररथो नदीभिः ततः प्रचक्रेवपुरन्यदल्पम् प्रवेष्टुकामोऽग्निमभिप्रशाम्य इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वांश्याय